द्रोणोवाच प्रयतिष्ये तथा कर्तुम् यथा नान्यो धनुर्धरः त्वत्समो भवितालोके सत्यमेतद्ब्रवीमि ते वैशम्पायनो वाच ततो द्रोणोऽर्जुनम् भूयो हयेषु च गजेषु च रथेषु भूमावपि चरणशिक्षामशिक्षयत् गदा युद्धेसि चर्यायाम् तोमरप्रासशक्तिषु द्रोणः सङ्कीर्णयुद्धे च शिक्षयामास कौरवान् तस्य तत्कौशलम् श्रुत्वा धनुर्वेदजिघृक्षवः राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ततो निषादराजस्य हिरण्यधनुषः एकलव्यो महाराजद्रोणमभ्याजगामः न स तम् प्रतिजग्राह नैषादिरिति चिन्तयन् शिष्यम् धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया स तु द्रोणस्य शिरसा पादो गृह्यपरन्तपः अरण्यमनुसम्प्राप्य कृत्वा द्रोणम् महीमयम् वृत्तिंच इश्वस्त्रे तस्न्चार्यवृत्ति परे योगे परंमास्थित परेतो योग सन्धे लघु परमा अथ द्रोण्युता कदाचिकु पांडवा रथैर्विनिर्ययुः सर्वे मृगया मरिमर्दन तत्रोपकरणम् गृह्य नरः कश्चिद्यदृच्छया राजन्ननुजगामैक श्वानमादाय पाण्डवान् तेषाम् विचरताम् तत्र तत्तत्कर्म चिकीर्षया स्वाचरन्सवने मूढो नैषादिम् प्रति जग्मिवान् स कृष्णम् कृष्णा जिनजटाधरं नैषादिम् श्वासमालक्ष्य भशंस्तथौ तदन्तिके तदा तस्याथ भषतः शुनः सप्तशरान्मुखे लाघवम् दर्शयन्नस्त्रे मुमोचयुगपत्यथा स तु श्वा तम् दृष्ट्वा पाण्डवा वीराः परम् विस्मयमागता लाघवम् शब्दवेधित्वम् दृष्ट्वा तत्परमम् तदा प्रेक्ष्यतम् व्रीडिताश्चासन् प्रशशंसश्च सर्वशः तम् ततोऽन्वेषमाणास्ते वने वननिवासिनम् ददृशः पाण्डवा राजन्नस्यन्तमनिशंशरान् न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् अथैनं परिपप्रच्छुक्को भवान् कस्य वेत्युत एकलव्यौ वाच निषादाधिपतेर्वीराहिरण्यधनुषः सुतम् द्रोणशिष्यम् च माम् वित्तधनुर्वेदकृतश्रमम् वैशम्पायनौ वाच त्वेन पुनरागम्य पाण्डवाः यथावृत्तम् वने सर्वं सर्वम् द्रोणायाचख्युरद्भुतम् कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् रहो द्रोणं समासाद्यप्रणयादिदमब्रवीत् अर्जुन उवाच तदाहम् परिरभ्यैकः प्रीतिपूर्वमिदम् वच भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः